मकंडेयपुराणम अध्या हंड्रड् एंड इलेवचरित वर्णन मकंडेयवाच निवृत्तस तदोभसंग्रस्व नई उपये मे चा वैश्यतनयां सोपि ततः वैश्यदां प्राप्त समुपे कॉिव भूपाल तत्माश्य मम राजवाचर्माधिके यू बाव्याद्यापस्वीन यद यदस्य कर्म धर्मा तद्वदन्तु तथा चर मार्कण्डेय उवाच ततस्ते मुनयस्तस्य पाशुपाल्यं तथा कृषिं वाणिज्यं च परं धर्ममाचचक्युःसभासदः तथैव चक्रे स सुतस्तस्य राज्ञो यथोदिदम् तैर्धर्मवादिभिर्धर्मं च्युतस्य निजधर्मदः तस्य पुत्रस्ततो जातो नाम्नाख्यादो भवन्तनः समात्राप्रहितो गच्छद्गोपालो भवपुत्रक मात्रा तथा नियुक्तो धप्रणिपत्यस्वमातरम् राजर्षिमगमन्नीपं हिमवत्पर्वदाश्रयं तं समेत्य च जग्राह तस्य पादौ यथाविधि प्रणिपत्याह चैवैनं राजर्षिं सफलन्तनः आदिष्टो भगवन् गोपालस्त्वं भवेदि भवेदिवै। मया च पालनीयाक्ष्मा तस्यास्वीकरणं कथम् मया हि गौः पालनीया सा यदा स्वीकृता भवेद् आक्रान्ता बलवद्भिस्सा दायादैः मम तां यथा प्राप्नुयां पृथ्वीं त्वत्प्रसादादहं विभो तथा दिशकरिष्यामि तवाज्ञां प्रणतोऽस्मि ते मार्कण्डेय उवाच ततः सनीपो राजर्षिस्तस्मै निरवशेषत फलन्ताय ददौ ब्रह्मन्नस्त्रग्रामं महात्मने प्राप्तास्त्रविद्यः स ययौ पितृव्यतनयान् द्विज वसुरातादिकान्पुत्रानादिष्टः स अयाचतसराज्यार्थं पितृपैदामहोचितं ते चोचुर्वैश्यपुत्रस्त्वं कथं ततस्तैर्युद्धमभवद्भलन्तस्यात्मवंशजैः वसुरातादिभिः क्रुद्धैः कृतास्त्रस्यास्त्रवर्षिभिः सजित्वा तानशेषां स्तु चकारपृथिवी तेषां धर्मयुद्धेन धर्मवित् सनिर्जितारि सकलां पृथ्वीं राज्यं तथापितुः निवेदयामास ततस्तत्पिता जगृहेण च प्रत्युवाच सत्तं पुत्रम् भार्यायाः पुरतस्तदा नाभाग उवाच कलन्दराज्यमे दत्ते क्रियतां पूर्वजैकृतम् अहं न राज्यं नासा मर्ध्ययुतः पुरा वैश्यतां तु पुरस्कृत्य तथैवाच्ञा करः कृत्वा प्रीतिं पितुरसं वैश्यकन्या परिग्रहात् न पुण्यलोकभाग्राजा यावदाभूतसम्प्लवम् उल्लङ्घ्याज्ञां पुनस्तस्य पालयामि महीं यदि नास्ति मोक्षस्ततो मम कल्पशतैरपि न युक्तं त्वद्बाहुनिर्जितं मम मानिनः राज्यं भोक्तुमनीहस्य दुर्बलस्येव राज्यं कुरु पुत्र दायादेभ्यो विमुञ्च वा ममाज्ञापालनं शस्थम् पिदुर्नक्षिधिपालनम् मार्कण्डेय उवाच ततः प्रहस्य सुप्रभा नामभामिनी प्रत्युवाच पदिं भूप गृह्यतां राज्यमूर्जितं न त्वं वैश्यो न चैवासं जादा वैश्यकुले नृपः क्षत्रियस्त्वं तथैवाहं क्षत्रियाणां कुलोद्भवा पूर्वमासीन्महीपालः सुदेव इति विश्रुतः तस्याभूच सखाज्ञो धूम्राश्वस्य सुतोनलः सतेन सख्यासहितो जगामाम्रवनं वनं पत्नीभिः स समं रन्तुं माधवेमासि पार्थिव तदःपानान्यनेकानि भक्ष्याणि बुभुजे तदा भार्याभिः सहितस्ताभिस्तेन सख्या समन्वितः तदः पुष्करिणीधीरे ददर्शादिमनोरमाम् पत्नी च्यवनपुत्र प्रमतेवात्मज सखात नलो मत् जगृहेता चुर्मी पश्यतः राजत्राद्रा देवादिनी आक्रिद निशम्य स तस्याः प्रमदिः पदिः आजगामत्वरा युक्त तदो ददर्शराजानं सुदेवं तत्र संस्थितं गृहीताञ्च तथा पत्नीं नलेन सुदुरात्मना तदसुदेवं सुदेवं प्रमदिः प्राहायं शास्यदामिति त्वं च शास्ता भवद्राज्ये दुष्टश्चायं नलो नृप मार्कण्डेय उवाच तस्यार्थस्य वच श्रुत्वा सुदेवो नलगौरवाद प्राह वैश्योऽस्मि गच्छान्यम् क्षत्रियं त्राणकारणात् तदस प्रमधिक्रुद्धस्तेजसा निर्दहन्निव प्रत्युवाचराजानं वैश्योऽस्मीत्यभिभाषिणं प्रमदिरुवाच येवमस्तु भवान् वैश्यः क्षत्रियः भावी वैश्य सत्रत्रि भाव वैश्यकूलाधम श्री मकंडेयपुराणे नागचरिदशाधिकम ओ oh.